हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे द्वितीयस्कन्धे सप्तमोऽध्यायः श्रोत उवाच पञ्चानां द्रौपदी भार्या सामार्या सा पतिव्रता पञ्चपुत्रासु तस्यासु भर्तृभ्योऽ सुन्दरा तथा भार्याकृष्णस्य भगिनी शुः सुभद्राया हृता पूर्वम् जिष्णुना हरिसम्मते तस्यां दातु महावीरो निहेतो सौरणाञ्जिरे अभिमन्युर्हता शस्र द्रौपद्या च सुता किल अभिमन्युर्वरा भार्या वैरथी चातिसुन्दरी कुलान्ते सुचवे पुत्रं मृतो बाणाग्निनाशिषु जीवितस्तेन भागिनेय सुतस्वयम् द्रोणीबाणाग्निर्दग्धे प्रतापेनाद्भुतेन च परीक्षीणेषु अंशेषु दातो यस्माद् वरसुतः तस्मात् परीक्षितो नाम विख्यातय पृथ्वी तवे नियतेषु च पुत्रेषु धृतराष्ट्रोऽति दुःखितः तथ पाण्डवराजे च भीमवाग्बाण पीडितः गन्धारी च तथा तिष्ठत्पुत्रशो कातुराभुजम् सेवां तुर्ति वा रात्रं चकारातो युधिश्चर त्रम पद्यान्धी अबोधयत् युधिश्चरस्यानुमते भातृप्रापार्श्वे वतिष्ठत् धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः दु। पुत्रशोकोद्भवम् दुःखं तस्य विस्मारयन्निवय यथा शृणोति वृद्धोऽसौ तथा भीमोति रोचितः स्वाग्णेन श्रुतु श्रावयन् संस्थितान् जनान् मया पुत्रा हता सर्वे दुष्टस्यन्दस्य तेरणे दुःशासनस्य रुधिरम् पीतम् हृद्यम् तथा भृजम् भुजक्तिपिन्नमन्दोऽयम् मया दत्तम् गततृपः ध्वद्वा स्ववच्चापि वृथा जीवत्य सो एवंविधानि वृक्षाणि श्रावयत्यनुवासरम् आश्वासयति धर्मात्मा मूर्खोऽयम् इति च ब्रुवन् अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः धृतराष्ट्रो वनेयानम् प्रासयामासु धर्मजम् अयाचत धर्मपुत्रं। धृतराष्ट्रो महीपतिः पुत्रेभ्योऽहम् ददाम्यद्य निर्वापम् विधिपूर्वकम् कृपोदरेण सर्वेषाम् कृतमत्रोर्ध्वदेहिकम् न कृतम् मम पुत्राणाम् पूर्वभेदम् न स्मृतम् ददाति चेत् धनम् मह्यम् कृत्वा चैवोर्ध्वदैहिकम् गमिष्येऽहम् वनम् तर्तुम् तपःसर्गफलप्रदम् एकान्ते विजरे विदूरेणोक्तो राजा धर्मसुतश्चि धनम् दातुम् मनश्चक्रे धृतराष्ट्राय चार्थिने समाहूय निजान् सर्वान् उवाच पृथिवीपतिः धनम् दास्ये महाभाग पितृ निर्वापकामिने तच्छ्रुत्वा वचनम् द्रातु ज्येष्ठस्यामित तेजस सङ्ग्रहीष्य महाबाहु मारुतिः कुपितोऽब्रवीत् धनं देयम् महाभाग दुर्योधनहिताय किम् अन्धोऽपि सुखमाप्नोति मूर्खत्वम् किमतः दुर्मन्त्रि देनाथ दुःखं प्राप्तावने वयम् द्रौपदी च महाभाग समानीता दुरात्मना विराटे भवने वास प्रासादात्तव सूरते। दासत्वं च कुतं सर्वै मत्स्यमितविक्रमै देवितां चेष्ठवे संशयकथम् सुपकारो विराटस्य हत्वा भुवं तुमस्मागतम् वृण्डला कथं जिष्णु भवेद् बालस्य नर्तकः कृत्वा वेषम्भूयो वासवत्मज गण्डिवशोभितौ हस्तौ कृतौ कङ्काणशोभितौ मानुषं च वपुप्राप्य किं दुःखं च ततः दृष्ट्वा वेणीं कृता मूर्निम् कज्जलं लोचने तथा असिं गृहीत्वा तर्सम् न्यथा सुखम् अपृष्ट्वा च महे पालं निक्षिप्तो निर्मया गृहे दग्धुकामय च पापा निर्दग्धोऽसौ पुरोचनः कीचका नियता सर्वे त्वाम् अपृष्ट्वा जनाधिपय न तथा निहता सर्वे भार्या धृतरा चया तव राजेन्द्र गन्धर्वेभ्यश्च मोचिता दुर्योधनादय कामं चत्रीकृता दुर्योधनायितायाज्य धनं दातुम् तमिच्छति नाहं ददे महे पाल सर्वथा प्रेरित त्वया इत्युक्ता निर्गते भीमेत्रिभिः भी परिवृतो नृपय दयो वित्तम् सुबहुलम् धृतराष्ट्राय धर्मय कारयामास च सुदेहम् ददौदानानि विप्रभ्यो धृतराष्ट्रोम् विकासुत कृतोऽर्थदैकं सर्वं गान्धारीश्व नृप प्रविवेश वनम् तूरणम् कुन्त्या च विदुरेण च सञ्जयेन प्रतिज्ञातु निर्गतो सौमहि महामतिः पुनर्निवार्यमाणापि शूरसेन सुतागता विरभन् भीमसेनोऽपि तथान्ये चापि कौरवः गङ्गातीरात्पदावृत्य ययुः सर्वे गजा व्ययम् तै गत्वा जाह्नवीतीरे शतयोपाश्रमम् शुभम् कृत्वा तृणैकुटिम् तत्र तपस्सेपुसमाहिताः गतान्यब्दानिषट् तेषाम् यदा याताहितापसः युधिष्ठरस्तु विरहत् अनुजामब्रवीत् स्वप्ने दृष्टा मया कुन्ती दुर्बलवनसंस्थितः मनो मे दायते द्रष्टुं मातरं पितरो तथा वितरं च महात्मानं सञ्जयं चे महामतिं रोचते यदि वर्वान् वयमृति मे मतिः ततस्ते भ्रातर सर्वे सुभद्रा द्रौपदी तथा वैराटी च महाभाग तथा नागरिको प्राप्तात् सर्वजनैः सार्धं पाण्डवदर्शनोत्सुकः शतयूपाश्रमं प्राप्य ददृशौ सर्व एव ते विदुरो न यदा दृष्टो धर्मस्सम्पृष्टवान् तदा क्वास्ते स विदुरो देमान्तमुवाचाम्बिकासुतः विरक्तश्चरते क्षत्ता निरीहो निष्परिग्रह कुतोप्येकान्तसंवासि जयतेन्तः सनातनम् गङ्गां गच्छन् द्वितीये वने राजा युधिष्ठिर विदुरं क्षामं तपसा समुचितवतम् दृष्टो वाचमहि पालो वन्देऽहं त्वां युधिष्ठिर तथो कृत्वा च विदुरभूत इवानगर क्षणेन विदुरस्यास्य निःसृतं तेजद्भुतं लीलं युधिष्ठरस्यास्य धर्मश्चत्वात् परस्परम् चत्ता शत्राधन् <coughs> शुशोचाचरे दाहार्थम् तस्य देहस्य कृतवान् उद्यमम् नृप शृण्वतस्तु तदा राज्ञो वागुवाच शरीरिणि वैरक्तोऽयम् न दाहारहो यथेष्टम् गच्छ भूपते श्रुत्वा ते सर्वे सनस मले गत्वा निवेदयामासु धृतराष्ट्राय वितरात् स्थितातस्थाश्रमे सर्वे पाण्डवा नागरैः तत्र सत्यवते सोनूर्नार्दैश्च स्मागतः मुनयोन्ये महात्मानश्चागता धर्मनन्दनम् धर्मनन्दनं। प्राह तदा व्यासम् संस्थितम् शुभदर्शनम् कृष्णकर्णस्तु पुत्रो मे दातमात्र मनो मे तप्यसेत्यर्थं दर्शयश्व समर्थोऽसि महाभाग्य कुरुम्बे वाञ्छितं प्रभो गान्धारुवाच दुर्योधनो निर्गच्छत् वीक्षितो न मया मुले तं दर्शय मनुष्ये च पुत्रम्बे त्वं सहानुजम् सुमद्रावाच अभिमन्युम्भावीरं प्राणादप्यधिकं प्रियम् द्रष्टुकाम् अस्मि सर्वज्ञवाच एवंविधानि वाक्यानि श्रुत्वा सत्यवती सुतः प्राणायामम् तत्र कृत्वा सद्यो देवीम् सनातनीम् सन्ध्याकाले च सम्प्राप्ते गङ्गायामनिसत्तमः सर्वासा च समाहूय युधिष्ठीर पुरोगमान् तुष्टावविश्वजननीम् स्नाता पुण्यसरि जले प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा देवदेवीं ब्रह्मरूपा मणे द्वीपादिवासिनीम् यदा न वेदा च विष्णुरीश्वर न वासवो नैव जलाधिपस्तथा न वित्तपो नैव यमश्च पावक तदासि देवी त्वमं नमामितां जलं न वायुन धरा न चाम्बरम् गुणानशेषां च न चेन्द्रियणम् मनो न बुद्धि न च दिग्मगुष्यसे तदासि देवी त्वमम् न ममिताम् इमम् जीवलोकम् समाधाय चित्ते गुणर्लिङ्गकोशम् च नीत्वा समाधौ स्थिताकल्पकालम् न यस्यात्मतन्द्र न कोऽप्योऽसि द्वेता विवेकम् गतोऽपि प्रार्थयत्येष मां लोकमृतानां नाम पुनः नाहं क्षमोऽस्मि मातस्त दर्शयशोमृताम् उवाच एव तदा देवी माया श्रीभुवनेश्वरी स्वर्गादाहूय सर्वान् वै दर्शया माया पार्थिवान् दृष्टाकुन्ती च गान्धारी सुभद्रा च विराटया पाण्डवा मम दुः सर्वे वीक्ष प्रत्यागतां स्वकाम् पुनर्विसर्जितासेन ना व्यासे नामित तेजसा स्मृत्वा देवीम् महामायाम् इन्द्रजालम् योज्यतम् तदा पृष्ट्वा ययुः सर्वे पाण्डवामुनयस्तथा राजा नागपुरम् प्राप्त कुर्वन् व्यास कथाम् पथि इति श्रीमद्देवी भगवते मापुराणे अष्टादशसहस्राम् संहितायाम् द्वितीयस्कन्धे पाण्डवानाम् कथानकम्बुतानाम् दर्शनवर्णनम् नाम सप्तमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु